ब्रह्माण्डपुराणम् उत्तरभागम् अध्यायं फोर्टि त्रि अगस्त्य उवाच अश्वाननमहाप्राज्ञकरुणामृतवारिधे श्रीदेविदर्शने दीक्षा यादृशीतां निवेदय हयग्रीव उवाच यदि ते देवताभावो यया कल्मषकर्दमाः क्षाल्यन्ते च तथा पुंसां दीक्षामाचक्ष्महेत्रताम् हस्ते शिवपुरं ध्यात्वा जपेन्मूलाङ्गमालिनीं गुरुस्पृश्येच्छिष्यतनुम् स्पर्श दीक्षेयमीरिता निमील्यनयने ध्यात्वा श्रीकामाक्षीं प्रसन्नधीः सम्यक् पश्यद्गुरुशिष्यं दृग्दीक्षा शेयमुच्यते गुरोरालोकमात्रेण भाषणात् स्पर्शनादपि सद्य सञ्जायते ज्ञानं सा दीक्षा शाम्भवी मता देव्या देहो यथा प्रोक्तो गुरुदेहस्तथैव च तत्प्रसादेन शिष्योऽपि तद्रूपः सम्प्रकाशते चिरं शुश्रूषया सम्यक् देशिकेश्वरः तूष्णीं सङ्कल्पयेच्छिष्यं सादीक्षा मानसी मता, दीक्षा मानसीमता दीक्षाणामपि सर्वासामियमेवोत्तमोत्तमा आदौ कुर्यात् क्रिया दीक्षां तत्प्रकारः प्रवक्ष्यते शुक्लपक्षे शुभदिने विधाय शुचिमानसं जिह्वास्यमलशुद्धिं च कृत्वा स्नात्वा यथाविधि सन्ध्याकर्म समाप्याध गुरुदेहं परं स्मरन् एकान्ते निवसन् श्रीमान् मौनी च गुरुश्च तादृशो भूत्वा पूजामन्दिरमाविशेद देवी सूक्तेन संयुक्तं विद्यान्यासं समादृकं कृत्वा पुरुषसूक्तेन षोडशैरुपचारकैः आवाहनासनेपाद्यमर्ध्यमाचमनं तथा स्नानं वस्त्रं च भूषा च गन्धपुष्पं तथैव च धूपदीपौचनैवेद्यं ताम्बूलं च प्रदक्षिणा प्रणामश्चेदिविख्यातैः प्रीणयेत्त्रिपुराम्बिकाम् अथ पुष्पाञ्जलिं दद्यात्सहस्राक्षरविद्यया ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ॐ नमस्त्रिपुरसुन्दरिहृदये देवि शिरोदेवि शिखादेवी कवचदेवी नेत्रदेवी, आस्यदेवी कामेश्वरि भगमालिनि नित्यक्लिण्डें भैरुण्डे पन्निवासिनि महावज्रेश्वरि विद्येश्वरि परशिवदूदित्वरिदे कुलसुन्दरि नित्ये नीलपताके विजये सर्वमङ्गले ज्वलामालिनि चित्रे महानित्ये परमेश्वरि मन्द्रेशमयि षष्ठीशमय्युद्यानमयि लोपामुद्रामय्यगस्त्यमयि कालतापनमयि धर्माचारमयि मुक्तके ईश्वरमयि दीपकलानाधमयि, विष्णुदेवमयि प्रभाकरदेवमयि तेजोदेवमयि मनोजदेवमयि अणिमसिद्धे महिमसिद्धे गरिमसिद्धे लखिमसिद्धे ईशित्वसिद्धे पशिव प्राप्तिकाम्य सिे रससी मोक्षे महेशरी कौम वैष्णवी वाराहि इंद्राणी चामुंडे महालक्ष्मी सर्व भिनी, सर्व सर्वसक्षोभिर्विद्राविणि सर्वाकर्षि सर्वयोने, शर्व शर्व शर्व र्वशंकरी सर्वोन्मांगुशेखेचरीबीचे सर्वास्त्रखंड्यमोहि चक्रस्वामी प्राणयोगि बौद्धदर्शनाकर्षिण बुद्ध्याकर्षि अहङ्काराकर्षिणि शब्दाकर्षिणि स्पर्शाकर्षिणि रूपाकर्षिणि रसाकर्षिणि गन्धाकर्षिणि चित्ताकर्षिणि धैर्याकर्षिणि स्मृत्याकर्षिणि नमाकर्षिणि बीजाकर्षिणात्माकर्षिणि अमृताकर्षिणि शरीराकर्षिणि सर्वाशा गुप्तयोगिनि सर्वासा परिपूरकचक्रस्वामिनि अनङ्गकुसुमे अनङ्गमेखले अनङ्गमादिनि अनङ्गमदनाधुरेणङ्गरेखे नङ्गवेगिन्यनङ्गुशेणङ्गमालिनि गुप्ततरयोगिनि वैदिक दर्शनाङ्गि सर्वसङ्क्षोभकारकचक्रस्वामिनि पूर्वाम्नायाधिदेवते सृष्टिरूपे सर्वसङ्क्षोभिणि सर्वविद्राविणि सर्वाकर्षिणि सर्वाह्लादिनि सर्वसम्मोहिनि सर्वस्तम्भिनि सर्वदृम्भिणि सर्ववशङ्करि सर्वरञ्जिनि सर्वोन्मादिनि सर्वार्थसाधिके सर्वसम्पत्प्रपूरिणि सर्वमन्त्रमयि सर्वद्वन्द्वक्षयकरि सम्प्रदाययोगिनि सौरदर्शनाङ्गि सर्वसौभाग्यदायकचक्रे सर्वसिद्धिप्रदे सर्वसम्वत्प्रदे सर्वप्रियङ्करि सर्वमङ्गलकारिणि सर्वकामप्रदे सर्वदुःखविमोचिनि सर्वमृत्युप्रशमिनि सर्वविघ्ननिवारिणि सर्वाङ्गसुन्दरि सर्वसौभाग्यदायिनि कुलोत्तीर्णयोगिनि सर्वार्थ साधकचक्रेशि सर्वज्ञे सर्वचक्रे सर्वैश्वर्यफलप्रदे सर्वज्ञानमयि सर्वव्याधिनिवारिणि सर्वाधारस्वरूपे सर्वपापहरे सर्वानन्दमयि सर्वरक्षास्वरूपिणि सर्वेप्सितफलप्रदे नियोगिनि वैष्णव दर्शनांगी सर्वरक्षाकरचक्रस्थे दक्षिणाम्नाये शिस्थितिरूपे वशिनिकामेशि मोदिनि विमले अरुणे जयिनि सर्वेश्वरि कौलिनि रहस्य योगिनि त्र्यभस्य शाक्त दर्शनांगी सर्वरोगहरचक्रेशि पश्चिमाम्नाये धनुर्बाण पाशाङ्कुशदेवदे कामेशि वज्रेशि भगमालिनी अधिरहस्ययोगिनि शैव दर्शनाङ्गि सर्वसिद्धिप्रदचक्रगे उत्तराम्नायेषि संहाररूपे शुद्धपरे विन्दुपीठगदे महारात्रिपुरसुन्दरि परा परादिरहस्ययोगिनि शाम्भवदर्शनाङ्गि सर्वानन्दमयचक्रेशि त्रिपुरसुन्दरि त्रिपुरवासिनि त्रिपुरश्रीत्रिपुरमालिनि त्रिपुरसिद्धे त्रिपुराम्ब सर्वचक्रस्थे अनुत्तराम्नायाख्यस्वरूपे महात्रिपुरभैरवि चतुर्विधगुणरूपे कुले अकुले कुलाकुले महाकौलिनि सर्वोत्तरे सर्वदर्शनाङ्गी नवासनस्थिते नवाक्षरि नव महेश्यमाधव विधाद्र पट्टारक मिथुनाकृते महेशमाधवविधादृमन्मथस्कन्दनन्दीन्द्रमनुचन्द्रकुबेरागस्त्यदुर्वासक्रोधफट्टारकविद्यात्मिके कल्याणतत्त्वत्रयरूपे शिवशिवात्मिके पूर्णब्रह्मशक्ते महापरमेश्वरि महात्रिपुरसुन्दरि तव श्रीपादुकां पूजयामि नमः क ऐं ईलह्रीं हसकहलह्रीं ऐं क्लीं सौः सौः क्लीं ऐं श्रीं देव्या पुष्पाञ्जलिं दद्यात्सहस्राक्षर विद्याया नो चेत्तत्पूजनं व्यर्थमित्याहुर्वेदवादिनः ततो गोमयसंलिप्ते भूदले द्रोणशालिभिः तावद्भिस्तण्डुलैः शुद्धैशस्त्रार्णैस्तत्र नूतनं द्रोणोदपूरिदं कुम्भम् पञ्चरत्नैर्नवैर्युदं न्यग्रोधाश्वमाकन्दजम्बूदुम्बरशाखिनां त्वग्भिश्च पल्लवैश्चैव प्रक्षिप्तैरधिवासिनं कुम्भाग्रे निक्षिपेत्पक्वं नारिकेलफलं शुभम् अभ्यर्च्य गन्धपुष्पाद्यैर् धूपदीपादि धूपदीपादिदर्शयेद् श्रीचिन्तामणिमन्त्रं तु हृदि माद्रक मातृकमाजपेद कुम्भस्पर्शन्श्रीकामाति रूपीकृतकलेवरम् अष्टोत्तरशतेजादे पुनर्दीपं प्रदर्शयेत् शिष्यमाहूय रहसि स सा बद्धलोचन कारण सांत्रु पुष्पा तत्कुम्जलिश्रीनाथ कूणाराशे परोतिमेस्वरी प्रसूनांजलिषा निक्षिप्ता शरणाम्बुजे परं धाम परं ब्रह्म मम त्वं परदेवता अद्य प्रभृति मे पुत्रान् रक्ष मां शारणागतम् इत्युक्त्वा गुरुपादाब्जे शिष्यो मूर्ध्निविधारयेद् जन्मान्तरसुकृतत्वं स्यान्यस्ते शिरसिपादुगे गुरुणा सेवया लब्धे इत्युक्त्वा भक्तिभरिदः पुनरुद्धाय शान्तिमान् वामपार्श्वे गुरोस्तिष्ठेदमानी विनयान्वितः ततस्तुम्बिजलैः प्रोक्ष्य वामभागे निवेदयेद् विमुच्यनेत्रबन्धं तु दर्शयेदर्शनक्रमं सिदा मध्वाज्यकदलीफलपायसरूपकं महात्रिपुरसुन्दर्या नैवेद्यमिति चादिशेद षोडशर्णमनुं तस्य वदेद्वामश्रुतौ शनैः तदो विनिर्गत्य स्थाप्य दार्वात्सने शुचिं निवेश्य प्राङ्मुखं तत्र पट्टवस्त्रसमासृते शिष्यं श्रीकुम्भसलिलैरभिषिञ्चेत् समन्द्रकम् पुनः शुद्धोदकैस्नात्वा वासी परिगृह्य च अष्टोत्तरशतं मन्त्रं जप्त्वा निद्रामधा विषेद दृष्टे सदि स्वप्ने पुण्यं योज्यं तदोत्तमं दुःस्वप्ने द्विजपं कुर्यादष्टोत्तरसहस्रकम् कारयेत्त्रिपुराम्बाया सपर्यां मुक्तमार्गतः यदा न दृष्टस्वप्नोऽपि सदा सिद्धिश्चिराद् भवेत् स्वीकुर्यात् परया भक्र्या देवी शेषकलाधिकम् सद्य एव स शिष्यः स्यात् पङ्क्रिपावनपावनः शरीरमर्थं प्राणं च तस्मै श्रीगुरवे दिशेत् तदधीनश्चरेन्नित्यं तद्वाक्यं नैव लङ्घयेत् यः क्षणार्धेन मोक्षलक्ष्मीं प्रयच्छति दुर्लभं तं विजानीयाद्गुरुं संसारतारकम् गुकारस्यान्धकारोऽर्थो रुकारस्तन्निरोधकः अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते बोधरूपं गुरुं, गुरु गुरुं प्राप्य न गुर्वन्तरमादिशेत् गुरुक्तं परुषं वाक्यमाशिषं परिचिन्तयेत् लौकिकं वैदिकं वापि तदाध्यात्मिकमेव च अदधीत पूर्वं तमभिवादयेत एवं दीक्षात्रयं कृत्वा विधेयं बौधयेत्पुनः गुरुभक्ति सदा चारस्तद्रोहस्तत्र पादकम् तत्पदस्मरणं मुक्तिर्यावद्देहमयं क्रमः यत्पापं समवाप्नोति गुर्वाग्रेनृतभाषणत गोब्राह्मणावधं कृत्वा न तत्पापं समाश्रयेत ब्रह्मादिस्तम्भपर्यन्तं यस्य मे गुरुसन्ततिः तस्य मे सर्वपूज्यस्य को न पूज्यो महीतले इति सर्वानुकूलो यः सशिष्यः परिकीर्तितः गुरु गुरशासन वर्तिशिष्भिधीये जब अच्छ्रांधुपुन ध्यानाश्रांधुपुनर्जपेद जब ध्यानायुक्त क्षिप्र ध्यानस्य प्रध्यति यन सेमोपिभ्रमरायते तथा समाधिसा मध्याद्ब्रह्मीभूतो भवेन्नरः यथा निलीयते काले प्रपञ्चो नैव तदैव तथैव मीलये नेत्रे ये दध्यानस्य लक्षणं विदितेदुपरि तत्त्वे वर्णाधिदेह्यविक्रिये किङ्करत्वं च गच्छन्ति मन्त्रा मन्त्राधिपैः सह आत्मैक्यभावनिष्ठस्य या चेष्टा साधु दर्शनं योगस्तपस्स तन्मन्त्रस्तद्धनं यन्निरीक्षणम् देहाभिमाने गलिदे विज्ञादे परमात्मनि यत्र यत्र मनोयाधि तत्र तत्र समाधयः यः पश्येत्सर्वगं श्यामानन्दात्मानमद्वयं न तस्य किञ्चिदाक्तव्यं ज्ञातव्यं वावशिष्यते पूजाकोटिसमं स्तोत्रम् समो जपः जपकोडिसमं ध्यानं ध्यानकोडिसमो लयः देहो देवालयः प्रोक्तो जीव एव महेश्वरः त्यजेदज्ञाननिर्माल्यं सौखं भावेन योजयेद् तुषेणबद्धो व्रीहिष्यत्तुषभावेदु तण्डुलः पाशबद्धस्मृतो जीव पाश मुक्त महेश आकाशे पक्षिजाद जलेशु जलचारी गतिर्न दृश्येद महृत्त महात्म दिवाकुद्रात्रौ नैमित्तीचन उभ्यो काम्यकर्म स्यादिति शास्त्रस्य निश्चयः कोटिकोटिमहादानात् कोटिकोटिमहाव्रतादकोटिकोटिमहायज्ञात् परा श्रीपादुका स्मृतिः ज्ञानदो ज्ञानदो वापि यावद्देहस्य धारणं तब्दर्णाश्रमाचारकर्तव्यकर्म मुक्त निर्गत यदुक्ता शास्त्र तदुच्य निषिद्धमी तत्कुआ गुर्वाज्ञा न जातिद्याधनाढ़ दूर दूरे गुरु मुदा दण्डप्रमाणं कृत्वैकं त्रिःप्रदक्षिणमाचरेत् गुरुबुद्ध्या नमेत्सर्वं दैवतं तृणमे वा प्रणमेद्देवबुद्ध्या दुःप्रतिमां लोहमृण्मयीं गुरुं हुङ्कृत्य तुङ्कृत्य विप्रंवादैर्विजित्य च विकास्य गुह्यशास्त्राणि भवन्ति ब्रह्म राक्षसाः अद्वैतं भावये नित्यं नाद्वैतं गुरुणा सह न निन्दे धन्यसमयान्वेदशास्त्रागमाधिकान् एकग्रामस्थितशिष्यस्त्रिसन्ध्यं प्रणमेद्गुरुम् क्रोश मात्रस्थितो भक्त्या गुरुं प्रतिदिनं नमेद अर्ध योजनगशिष्यप्रणमेत् पञ्च पर्वसु एकयोजनमारभ्य योजनद्वादशावधि तत्तद्योजनसङ्ख्यादमासेषु प्रणमेद्गुरुम् अधिदूरस्थितशिष्यो यदेच्छा स्यात्तदा व्रजेदत् रिक्तपाणिस्तु नोपेयाद्राजानं देवतां गुरुं फलपुष्पाम्बरादीनि यथाशक्ति समर्पयेद् मनुष्यचर्मणा बद्धः परशिवस्वयं सच्चिष्यानुग्रहार्थाय गूढं पर्यडदीक्षितौ सद्भक्रक्षणावरा सा शिव कृपा निधिलोक संसारी वही चेष्ट अत्रिनेशिवसाक्षादुर्बाच्युता अच्र्वदनों ब्रह्मा श्रीगुरुपरिकर्ति श्रीगुरुं परतत्त्वाख्यं तिष्ठन्तं चक्षुरग्रतः भाग्यहीना न पश्यन्ति सूर्यमन्था इवोदितम् उत्तमा तत्त्वचिन्ता स्यात् जपचिन्तादु मध्यमा अधमा शास्त्रचिन्ता स्याल्लोकचिन्ताधमाधमा नास्ति गुर्वधिकं तत्त्वं नास्ति ज्ञानाधिकं सुखं नास्ति भक्त्यधिका पूजा न हि मोक्षाधिकं फलं सर्ववेदेषु शास्त्रेषु ब्रह्मविष्णुशिवादिषु तत्र तत्रोच्यते शब्दाय श्रीकामाक्षी परात्परा शचीन्द्रौ स्वाहाग्नी च प्रभारवी लक्ष्मीनारायणौ वाणी धादारौ गिरिजाशिवौ अग्निसोमौ बिन्दुनादौ तथा प्रकृतिपुरुषौ आधाराध्ययनमानौ भोगमोक्षौ तथैव च प्राणापनौ च शब्दार्थाौ तथा विधिनिषेधकौ सुखदुःखादि यद्वन्त्वं दृश्यते श्रूयतेऽपि वा सर्वलोकेषु तत्सर्वं परं ब्रह्मण संशयः उत्तीर्णमपरं ज्योतिकामाक्षीनामकं विदुः यदेव नित्यं ध्यायन्ति ब्रह्मविष्णुशिवादयः इद्धं हि शक्रिमार्गेऽस्मिन्ह पुमानिह वर्तते प्रसादभूमिश्रीदेव्या भुक्तिमुक्त्योस्स भाजनम् अमन्त्रं वा समन्त्रं वा कामाक्षीमर्चयन्ति ये स्त्रियो वैश्याश्च शूद्राश्च ते यान्ति परमां गतिं किं पुनः क्षत्रियाविप्रा मन्त्रपूर्वं यजन्ति ये संसारिणोऽपि धेनूनं विमुक्ता नात्र संशयः सिदा मध्वाज्यकदलीफलपायसरूपकं पञ्चपर्वसुनैवेद्यं सर्वदैव निवेदयेद् यो नार्चयदि शक्तोऽपि स देवी शापमाप्नुयाद् भावनाद्रव्यचएन्यमंका गृहस्थस्तु महादेवी मंगलाचार संयुक अर्चयदमाल्मीमनुकूलांगना सख गुस्त्रिवार कथएत्कलशोद शिष्यो यदि न गृया शिष्य पापम गुरोर्नि लक्ष्मीनारायणौ वाणी धादारौ गिरिजाशिवौ श्रीगुरुं गुरुपत्नीं च पितरौ चिन्तये धिया इति सर्वं प्रोक्तं समासेन खडोद्भव येदावदवधानेन सर्वज्ञो मधिमान् भवेत् श्री ब्रह्मांडमहापुराणे उत्तरभागे ललिदपाख्याने चुप्वशोध्याय